सर्वानुभवसाक्षिणे नमः ॐ समग्राग्रगुणाधारशक्त्यलीलाय नमः ॐ सर्वसङ्कल्परहिताय नमः ॐ सर्वसङ्कल्पसाक्षिणे नमः ॐ सर्वसंज्ञाविहीनाय नमः ॐ सर्वसंज्ञाप्ते साक्षिणे नमः ॐ साङ्ख्यव्यत्पूर्णाय नमः क्त्युपभ्रंहिताय नमः ॐ सुरवासनाय नमः ॐ स्वयं ब्रह्मणे नमः ॐ सर्वपापशमाय नमः ॐ संशान्तदुःखाय नमः ॐ सिद्धान्तरहस्याय नमः ॐ सर्वगोचराय नमः ॐ सर्वसङ्कल्पजालशून्याय नमः ॐ सुखात्सुखाय नमः ॐ सर्वकल्पनातीताय नमः ॐ साक्षिनुताय नमः ॐ स्वानन्दाय नमः ॐ सर्ववेत्सर्वाय नमः ॐ सर्ववाक्यविवर्जिताय नमः ॐ सकलनिष्कलरूपाय नमः ॐ सकलनिष्कलसाक्षिणे नमः ॐ सर्वप्रकृतिविहीनात्मने नमः सिद्धिविवर्धनाय नमः ॐ सर्वशास्त्रार्थसिद्धान्ताय नमः ॐ सर्वसम्पूर्णविग्रहाय नमः ॐ स्वानुभूत्येकमानाय नमः ॐ सर्वचित्तानुगाय नमः ॐ स्वप्नतुल्यजगत्साक्षिणे नमः ॐ सर्वकृतये नमः ॐ सूक्ष्मधिये नमः ॐ समाय नमः रससाराय नमः ॐ सर्वमनफलाय नमः ॐ सकृद्विभानाताय नमः ॐ संशान्ताय नमः ॐ सूक्ष्माय नमः ॐ सङ्गहेनाय नमः ॐ सर्वप्रत्ययसाक्षिण नमः ॐ सर्वान्तरङ्गाय नमः ॐ सुसन्तुष्टाय नमः ॐ सर्वप्रत्ययवर्जिताय नमः ॐ स्वप्रकाशाय नमः ॐ सदानन्दाय नमः ॐ सर्वप्राणिमनोहराय नमः ॐ साधुप्रियाय नमः ॐ साधुप्रज्ञाय नमः ॐ स्वादुस्वादुविवर्जिताय नमः ॐ स्वादुस्वादुप्रदीपकाय नमः ॐ सर्वज्ञाय नमः ॐ सर्वसम्पूर्णाय नमः ॐ सर्वसन्तोषसाक्षिणे नमः ॐ संसारार्णवनिर्मुक्तसमुद्धरणकौशलाय नमः ॐ स्वात्मानन्दकणीभूतब्रह्माद्यानन्दसन्ततय नमः ॐ हस्तहेनाय नमः ॐ हिरण्यगर्भसाक्षिणे नमः ॐ हिरण्यगर्भरूपाय नमः ॐ हेयोपादेयवर्जिताय नमः ॐ हंसमन्त्रार्थरूपाय नमः ॐ हर्षशोकप्रसाक्षिणे नमः ॐ हंसाय नमः ॐ हंसभावनाय नमः ॐ क्षुद्रजगत्साक्षिणे नमः ॐ क्षराक्षरविवर्जिताय नमः ॐ क्षान्तिमच्चित्तसुलभाय नमः ॐ क्षान्तिहीनसुदूराय नमः ॐ क्षेत्रज्ञाय नमः ॐ क्षेत्रस्वरूपिणे नमः ॐ क्षेत्राधिष्ठानाय नमः ॐ विषुवल्लोकसाक्षिणे नमः ॐ क्षान्ताय नमः ॐ ब्रह्मानन्दस्वामिने नमः ॐ आत्मानन्दस्वामिने नमः ॐ अश्वनाथस्वामिने नमः